यजुर्वेदैत्तिरीयारण्यके द्वितीयप्रश्नः प्रारम्भः ॐ नमो ब्रह्मणे पृथिवी नमो वाचे नमो, नमो, नमो वाचस्पतये नमो, नमो विष्णवे बृहदे करोमि ॐ शान्ति शान्ति शान्तिः हवैदेवानां चासुराणाञ्च यज्ञो प्रसुदावास्तां स्वर्गं लोकमे श्यामोश्यामयिते ब्रह्मचर्येण तव दैव देवास्तेष्वामुस्तेन प्राजानुग्रस्ते परापवन्देन स्वर्गं लोकमा यन् नृत्येन वै यज्ञेन देवा स्वर्गं लोकमा यन्नप्रसृतेनाधुरान् पुराभावयन् प्रसुद हवै यज्ञोपवेदिना यज्ञाप्रसुतापवेदिना ब्राह्मणा यज्ञापवीत्य प्राचीनाभीतो संवेदम् मानुषम् रक्षा हवा प्रणवाच्ये द्वाक्रमतिष्ठन्तमन्त्रिते ब्रह्मवादिन पूर्वाभिमुखा संज्ञायां गायत्र्याभिमन्त्रिणा अपोवत्रीभूताना रक्षार्थं सिन्दे आरुणे दिवे प्रक्षिबन्त्यत्र लक्षणं प्रक्रान्तदेवो आत्मना महोदोन वन्दत्यन्तवस् कल्यान्तम आदित्यमविद्यायं कर्मं ब्रां मनोविद्यान् सकर्मत्रमस्तुलेसावादितो ब्रह्महे ब्रह्महे वसंबन्धाप्येति हेवं वेदा विद्यारवेहे वन्दे वागश्चर्मावयं आदित्यस् तस्मान् मम चततस्यते नमामिदा देवजं कर्मन्यायत्वा च अनुमोदिमा तस्मान अयमन्त्रद्रिश्वे देवास स्वर्गदा पृथेरत्यावा पृथ्वी रत्तकमुजरसते कृदान्नपार्श्वेन सोयत्नजानसमुदिमा इन्द्रज्ञे मित्रवर्णो सोमधाता प्रस्पृते देनम् जिन्देह सोयदञ्जुगन्मारुवा सद्यतः सिंघादत्याज सिंघाख्ययस्य गुञ्जादवाक्रिनिः सह अनासट्टं देवगुञ्जेन रष्टस्मात्मनस्मान् जाद वेदमोक्तिः ैव प्रदत्ते ददामि यन्मै माता यदा पिपेशे क्षण्यदाशिजातिक्रामामित्रस्य संविधानो प्रमुदाम् वग्नमुपचिह्नमाणः उग्रम् पश्चाचराष्ट्रभत्यदान्यप्सरसामनुदत्ताम् गृहाणि ते <milele> ैराष्ट्रभक्तिषाश्च ष्टम् आयुष्ठे विष्णतो पुनस्ते प्राण आयाति हविशो परमदेवता मदचारुव्यं देवपत्रवृक्षदादिमं न ममायुष्य वर्तते गृध्रित्मो जोवर्णसगौंसीसादि आदेव अस्माद् यशन्मयच्छ विश्वे देवा जदाष्टस्यदासदः न ममायुष्य वर्तते जातवत् यमसंजनः कार्यवास सुदुचना अग्नयेव स्वस्तमास्मेवत्र सुरीयम् तत्त्वैमिगोषं अग्निरद गत्त्वा मानुपाञ्जल्य प्रोहिदा अ्विमे प्रुदान सबत्नान प्रुदाने सबत्ना र�त्नान यातवैदान अश्वा आश्मेदी इधिसम Hayırnant Chan Munday e Jamitra Vridhar without Moo आश्चा ज्यातन प्रुदान सबत्नान प्रुदान सबत्नान प्रुदान अश्वा व्यतनों पूझेत प्रुदान सबत्नान अश्मा कॉ ैव प्रक्षायिवोच्छेषु किञ्चन योमान्देष्टिजातवेदोयञ्ज्याहन्वेश्म्यश्च माम् हमस्मि पुरोहितः मित्रान् नयामि स्वाहा पुनरायन्मागात् पुनश्चक्षुः पुनः श्रोत्रम् मागात् पुनः प्राणः पुनरागूतम् माघात् पुनश्चित्तम् पुनराधीतम् मागात् स्तनोपादतान् विश्वानराय प्रतिवेदयामो यदिकरो देवतासुशत्रैतङ्कर्याचमानो अवदत्सुवामिभे दिवितो नामदार्गे मेहामृतस्येच्छताम् एतत् लद्धकमोचनम् लोकान्कृधिबन्धान्मुञ्चासिद्धकम् यौनेरिव प्रच्युतोः सर्वान् अनुष्वा सप्रजानम्प्रथमजा दिएग्रुप रथस्य अस्माभिन्नन्दम् त्वमनुसञ्चरेमन्वेके अनुसञ्चरन्ति येषां धत्तम् वित्रियमायिनवन्धे केदृच्छान्ते बन्थामवतो कृतेन येह पितरं स्मै गोत्रा एम्भातान्तरिक्षमभिशस्तयेन धुर्याच्छम्भवाचकाय लोकम् ङ्गेदा स्वर्गे तत्र वश्येमृतुष्याघो अस्ति च प्रतिजग्राहमग्निर्मातस्मादनृणम् यद्मया मनसा वाचा कृतमेन सर्वस्मात् तस्मान् मेलितो मोक्षिवेच्छ यथा जलम् ोऽस्मिन् पवित्रं न प्रोदयेनानि पश्यनि यद्देवादेव वैश्वानदाय प्रतिवेदयाम इत्युपतिष्ठतैर्वासि नमेनाभ्रूण्यायास्तस्मान्मोक्ष्यथ इति ते तैरजुहवस्तेभवन् कर्मादिष्वेदयत्युहयाकृतादेव लोकान् समश्नुते यो नमेनो कूष्माण्डीर्यं दीक्षित भूतयोचीन्यायास्तस्मान्मुचिते संवत्सरा देवात्मानं चतुर्विकंसिक्षितो भवति चतुर्विकंसिद्धमासा संवत्सरस् संवत्सरा देवात्मानं मुनीने द्वादश रात्रि एतेषितोदशमासा संवत्सरस्संवत्सरा देवात्मानं बुनीदे षट् रात्रि एतेषित भवति षट्वादव संवत्सरस्संवत्सरा देवात्मानं बुनिदे त्रिश्रौरात्रि एतेक्षितो भवति त्रिपदा गायत्री गायत्र्या देवात्मानं बुनिते न माघो समश्नीयान्त्रियमुपेयान्न वर्यासीतजुगप्सेदान् ब्राह्मणस्य ैश्वेतोपदस्यामीत्यात्मनानुपदासाय अजानहीवृशनेकस्त्वपश्यमानाम् ब्रह्म स्वयं भव्यानृषयोशीनांन्त यज्ञकामास्य एतम् ब्रह्म यज्ञपश्यन्तमाहरन्तेनायन्तयाहुतयो देवानामभवने ब्राह्मणानितिहासान् पुरार्मेदाहुतयो देवानामभवन्ताभिश्चमनो देवा स्वर्गल्लोकमाहिन् ब्रह्मणस्सायुज्यमृशयोगच्छन् पञ्झवा एते महायज्ञास्वधिप्रदायं यज्ञो भूत यज्ञो मनुष्ये ब्रह्म यज्ञैं तद्देव यज्ञष्ठतेभ्यो भो हरति तद्भूते यः सन्धिष्ठते यत्ो नन्ददाति मनुष्ये यस्सन्धिष्ठते स्वाध्यायसामवादब्रह्मैत्यस्सन्दिष्टय स्य पितृन्त्युजोगं श्रीकृतस्य कुल्यायत् सामानतोमयेभ्यवते सर्वाङ्गिकुल्यायत् ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाधा नारासीमेतत् कुल्यास्यन्भिरेव तदेवाविस्तर्पद्योगं श्रीकृताहति सामानतोमाहुतिभि सर्वाङ्गिल सोमत्वाणानीतिहासान् पुराणानि कल्पान् गाधा नारासि ेदाहुभिता आयुषा तेजसा वर्तता श्रीयाय सदा ब्रह्मवर्चते नान्नाद्येन च तर्पयन्ती ैज्ञानीणादिकेश्वर पुराणानि कल्पान् गाधा नाराधिंसेनादिं महत्पस्थिर्योपस्थं प्रागाधीन स्वाध्यायमधीये तापां वा एष ओषधी यद्दर्भाणोत्तरो वाणीपादो विक्त्वारममुदन्तरेतदिताभ्युक्तमचक्षरे परमे व्योमनस्मिन् देवाकरिष्यै तद्यै त्यन्तप्रायङ्कावित्रेङ्गायित्रेन्द्रिङ्गताश्रियमेवाप्रत्यथ प्रज्ञातैव प्रतिपदा छन्दापद्यते स्वाध्यायमीतम् वेदिह स्वादवाचोदतिष्ठन्नतया भवति एवम् विद्वान् स्वाध्यायमधीते पृथिव्ये न ओषधीभ्यः नमो वाचे न वाचस्पदये नमो विष्णवे बृहते करोमि मध्यन्दिने प्रबलमुदीतादौ फलवा वैशादिज्यो यत् ब्राह्मणस्तस्मात्तर्हिते क्ष्णिष्णपतितदेशाव्युक्ता चित्रम् देवा नामदगादनी कञ्चक्षन्मित्रस्य वरुणस्याज्ञेः प्राज्ञा अन्तरिक्ष आत्मा जगतस्ते ब्रह्म इति परिधानीयान् स्य वा एतस्य मेघोह्यमाने स्तनयस्य स्वाध्यायैत्युत्तमन्नाकुमुहत्युत्तमस्य मानानाम्भवधियावन् वृत्तस्य पूर्णान्दध स्वर्गं लोकं जीरितावन् लोकञ्जय भूयागम् सञ्जाक्षय्यञ्जापफलम् मृत्यञ्जयति ब्रह्मणः सायुज्यम् गच्छति तस्य वा एतस्य यदात्मासु चर्यतानि एवम् सर्वान् लोकाञ्जयति सर्वान् लोकान्ुक्ता अनुना अस्मिन् अनुना परस्मिन् लोके अरुणा एदेवयानावदपि द्रियाणाः सर्वान् देवा यज्ञस्य दक्षिणा प्रत्यक्षिणानाम् ब्राह्मणेन ब्राह्मणस्य स्वाध्यायो देव पवित्रम् वा एतत् अन्योनोच्चभागो वाचिभागो नाकेतदेशाभ्युक्ता च्यपिभागोऽस्ति यदिकमुणोदिन हि प्रवेशसु कृतस्य बन्धामिति तस्मात् स्वाध्यायोध्यो यञ्जम् भवत्य वायोरादित्यस्य साहित्यम् गच्छति तेषाभ्युक्ता ये अद्वानुवा पुराणे वेदम् विद्वांसमभिता वदन् जादित्यमेव ते परिवदन्ति सर्वे अज्ञम् द्वितीयम् तृतीयम् च हातिर्वै देवतास्ताः सर्वा वेदविदब्राह्मणेव सन्ति तस्मात् ब्राह्मणे नमस्वर्या श्रीलिङ्गीत्यये देवता एव देवता प्रीणादि ऋच्यदैव वा एषत्रैव्यदयो यादयि प्रति वा गृह्णादि यादयित्वा प्रतिगृह्यवानस्मन्ति स्वाध्यायम् गुहे हवा एषच्छन्दातु याजयेत्सौरण्यम् परेनासीतस्यानि शुच्या वार्म प्राणो हविः प्राणदक्षिणानन्ददक्षिणः समृद्धधरः ीर्णे प्रविशदि तद्धेद्या ब्रह्मवासिनामृतः प्राणेरिन्द्रम् बृहस्पति नाग्ण सर्वेण तत्सीताम् प्रायश्चित्तिम् विदाञ्च कार्धदेव आश्यप्रह्मचार्यस्याया गोरात्र्याम्यम् प्रणीयापसमाधायद्विराज्यस्योऽपघातंहति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिद्रुग्ध्वास्म्यभृदुग्ध्वस्मि कामकामाय स्वाह्यमुतं वा आज्य मेवात्मन्धत्ते हत्वा प्रयताञ्जलिः कवादर्यम् यज्ञमभिमन्त्रयेरसम्मासिञ्जन्तमरुधः समिञ्जस्सम् युष्मन्दरात्मै मृतप्राणान्तर्ब्रह्म सर्वतोत्वा सर्गमागिरेभिमन्द्रे तत्रिषज्जाहितयोन्ये तथ इत्थञ्जु यादिमभिमन्त्रेदपुनीत एवात्मानमायिरेवात्मन्धत्येव दुक्षिनामरेणैव वर्गस्पृणात्यात्मा ह्यः भोः प्रभज्ये भुवप्रवद्ये स्वप्रवद्ये भो भव स्वप्रभ्ये ब्रह्म प्रभज्ये ब्रह्मघोषं प्रवद्ये मृदं प्रवज्ये मृदघोषं मृज्जालं ब्रह्मघोषिन्यं मृत्युन्नावपश्यं प्रभज्ये देवान् ब्रह्मणा ब्रह्मनाहन्ते साकश्यपश्ये स्मैनमस्तच्छिरोधर्मो मूर्तान् ब्रह्मोत्तराहनुष्ठुरहृदयश्विनोपोर्मक्तिर्मध्यं वृत्तावरुणापरपादा वृक्तिः पुच्छ स्य प्रथमं काण्डं दधन्द्रस्ततः प्रजापतिरभयञ्च स्वर्गं लोकीयतेनाग्नोयतेनानपत्यप्रमीयते लघ्वान् न भवति ध्रुवस्त्वमसि ध्रुवस्य शिशुकुमाराय नमः नमः प्राची दिशेयाश्च देवता एतस्याम् प्रतिपथम् जेदाभ्यश्च न भो नमो दक्षिणायै श्च देवता एतस्यां प्रतिविशन्त्येताभ्यश्च न मोनमश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च न मोनमऊर्धायि दिशेयाश्च देवता एतस्यां एताभ्यश्च न मोनमोधरायिशेयाश्च देवता एतस्यां प्रतिवसन्त्येदाभ्यश्च न मोनमोगाय दिशेयाश्च देवता एतस्यां प्रतिविधन्त्येदाभ्यश्च न गङ्गायुमलयोर्मलेभ्यश्च नमो नमो गङ्गायुमलयोर्मलेभ्यश्च नमः नमो ब्रह्मणे नमो हस्तज्ञये नमः पृथिव्यै नमौषधीभ्यः नमो वाचे नमो वाचस्पदये नमो विष्णवे बृहदे करोमि ओम् शान्तिः इति दि आरण्यकभागे द्वितीयः प्रश्नः समाप्तः